मुद्गलपुराणं खण्डं 6, विकटचरितम् अध्यायं तर्टिफोर् कामासुरविचारवर्णनं श्रीगणेशाय नमः आदिशक्तिरुवाच चिन्नाङ्गा असुराकामासुरं केचिन्महाबलम् जग्मुर्भययुधं दृष्ट्वा वृत्तान्तं तमवेदयन् दैत्या ऊचुः किं महाराज मृदा दैत्या महामृधे तव पुत्रौ मृतौ तत्र चरणं व्रजविघ्नभं नो चेद् दैत्यकुलानां वै मूलच्छेदो भविष्यदि इति तेषां वच श्रुत्वा कामासुरो मुमूर्च्छः सावधानकृदो दैत्यै रुरोदभयसङ्कुलः शोकसन्दप्तगात्रोऽसौ देवान् हन्तुं मनोदधे दधे गृहीत्वा शस्त्रसङ्घादान् रथारूढो बभुवः शेषसेनां समादाय विकटं प्रययौ पुरः रणभूमौ महावीरं प्राप्तं पामासुरं परं दृष्ट्वा भययुधा देव वचो विकटमब्रुवन् समागतस्वयं महायशाः इदानीं गणनाधत्वं यत्करिष्यसि तत्कुरु तथ क्रोधयुतो देवान् विकटप्रत्युवाचः भयहीना महेशाना युध्यध्वं मदनुग्रहाद तस्य तद्वचनं श्रुत्वा शम्भुविष्णुमुखामराः गर्जित्वा खनवद्धोरं तं ययुः शस्त्रपाणयः समागतान् महेशाद्यान् जगादैत्यनायकः क्रोधेन महता युक्तो देवान् देवनिषूदनः कामासुर उवाच शम्भो विष्णो तथान्येदु देवेशा मे वचोऽधुना शृणुध्व किं कृतं घोरं वैरं पुत्रवधात्मकं मया स्नेहयुतेनैव न हताः प्राक्सुरेश्वराः दयायुक्ते न दत्तम् सुहैः परम् अधुना क्रोधसंयुक्तो हनिष्यामि सुरेश्वरान् विकटं देवपहत्वा मुनीन् देवेन्द्रसतमाः एवमुक्त्वा धनुःसज्जं चकार दैत्यनायकः जगादधैर्यमालम्ब्य तदस्थं शङ्करो वचः श्रीशंकर उवाच त्वयास्माकं महादैत्यगृहीतं सकलं पुरा धर्मनाशकृतश्चैव त्रैलोक्यं पीडितं बलाद फलं दैत्यपदे तस्य त्वया प्राप्तं न संशयः त्वां हनिष्यामि विकटकृपयाहम् खलोत्तम शिवस्य वचनं श्रुत्वा क्रोधयुक्तो महासुरः गदया तं जखानैव पादयामास शंकरं शङ्करं पतितं दृष्ट्वा चक्रं तत्याज केशवः कामासुरं समासाद्य निष्फलं तद्बभूवः तधक् क्रोधसमायुक्तो धनुःकामः प्रगृह्य च सज्जं कृत्वा महाबाणान् ववर्ष हनवद्भृशं तैर्बाणाैर्देवमुख्याश्च पतिता धरणीतले चिन्नाङ्गा बलहीनाश्च मुमूर्च्छुस्ते ततः परम् तदो बलिमुखात् सर्वे दानवाद्युद्धदुर्मदाः देवान् क्रोधसमायुक्ता जघ्नोस्तत्र समन्तदः विष्णुः कामं जपानैव बाह्नैः परमदारुणैः सोऽपि तं मूर्छिदं चक्रे दयितेयो गरुडध्वजम् तदो मूर्च्छां परित्यज्य शङ्करो युयुधे भृशं कामासुरेण दैत्येन्द्रस्तं जखानासिखा तदः तथापि न चालैव शिवः तदो ततो विष्णुसमुत्थस्थौ युयुधे दानवै भानुना शरपादेन रावणस्ताडिदो भृशं दुर्मतश्च तथा देव्यः पेततुस्थौ धरातले विष्णुना चक्रपादेन हदो मूर्च्छामवापः महिषकुम्भकर्णश्च शङ्करश्च बलिष्टथा ततश्चक्रेण गोविन्दो जखानवान् परं हाहा कृत्वा सुरा सर्वे पलायन्तदिशो दश तद्दृष्ट्वा परमाश्चर्यं पामासुरः सुविस्मितः क्रोधयुक्तो महेशानं धृत्वाख्यास्वालयत्तदा विष्णुं धृत्वा प्रचिक्षेप महापर्वदमस्तके भानं गृह्य धरायां स सा बोधयामास दारुणः तदोहाकारवं कृत्वा देवाः सर्वे भयातुराः प्रपलुश्चिन्नभिन्नाङ्गाः कामासुरनिपीडिताः दैत्येन्द्रस्य बलम् दृष्ट्वा हर्षितो विकटस्वयम् मूषकोपरि संस्थाय ययौ सङ्ग्रामकारणात् कामासुरः समालोक्य आगतं तम् प्रतापवान् क्रोधसंरक्तचक्षुः स जगादभयसंयुतः पमासुर उवाच मयूरेशकदं यादसङ्ग्रामाय मया सह संस्थाया कुतुल्यस्त्वं मदोसिमे मे मम पुत्रौ महावीर्यौ गजाननहतौ त्वया तयो शोकेन सन्तप्तो हनिष्यामि समूषकम् देवैः सम्प्रार्थितस्त्वं तु किं करिष्यसि मां वद मम भ्रूभङ्गमात्रेण कम्बदे सचराचरम् उत्पत्तिस्थितिसंहारकर्तृभ्यो मे गजानन तैर्युक्तेभ्यो भयं नैव भविष्यति कदाचन देहधारीगणाध्यक्ष किं करिष्यसि मूर्खवद अज्ञानसंयुतस्त्वं तु मरिष्यसि मदग्रदः कामासुरस्य वाक्यं सश्रुत्वा गणपतिस्वयं जगादहास्यवदनः परं तं गर्वसंयुधम् मूर्खोऽसि काम अत्यन्तं विकटोहं विचारय जन्ममृत्यु विहीनो वै कथं हंसिमहाफल न सृष्टिस्थितिसंहारकर्ताकं दैत्यपुङ्गव यदि जीवितुमिच्छाते तदा मां शरणं व्रज नो चेत् त्वां पापकर्माणं हनिष्यामि न संशयः गर्वं त्यज महामूर्खब्रह्माहं नात्र संशयः शुक्रेण सर्वं न बुद्धं मूर्खभावदः स्वरूपं मे त्वया दुष्टाधुनापि शरणं व्रज विकटस्य वच श्रुत्वा क्रोधयुक्तो बभूवः कामासुरश्च तं हन्तुं गदाम् चिक्षेप दुण सा गफला त्रपत धरणीतले अकस्मादैत्यराजस्तु मूर्छि प्रबभूव प्रखरेण मूर सवधव अशक्र सर्वदेहे स पीडां लेभेदि दारुणाम् ततो मनसि सन्धार्य विचारमकरोत्कलः अहो शस्त्रं विना मांस जघानविकढकथं शक्तिहीनोऽहमत्यन्तं कथं युद्धं करोमि वै शुक्रेण कथितम् सत्यम् ब्रह्माकारोऽयमुच्यते दे तथापि देवपक्षस्य धारकोऽयम् कथम् भवेद् अध संशयसंयुक्तशरणम् न व्रजाम्यहम् मरिष्यामि न सन्देहस्तदेव कीर्तिवर्धनम् शत्रूणाम् शरणम् चैव न योग्यं भासदे हृदि अतोऽहं विकटं गत्वा करोमि प्रश्नमद्भुतं देवपक्षविहीनश्चेद्व्रजामि शरणं च दम् ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे षष्ठे खण्डे कामासुर कमासुरविचारवर्णनं नाम चतुस्त्रिंशत्तमोऽध्यायः ॐ